श्रीहरये नमः अथ नवमोऽध्यायः ब्राह्मण उवाच परिग्रहो हि दुर्गाय अनन्तं सुखमाप्नोति तत् विद्वान् किञ्चनः सामिषं गुररं जघ्नोर्बलिनो ये निरामिषाख तदामिषं परित्यजन् ससुकं सुखं समविन्दत न मे मानावमानौसो न चिन्ता केहपुत्रिणाम् आत्मक्रीड द्वावेव चिन्त्यामुक् तौ परमानन्द आप्लुतौ यो विमुग्धो जटो बालो यो गुणेभ्यः परं कतः क्वचित् कुमारित्वात्मानं वृणानां गृहमागतान् स्वयं तान् अर्हयामास क्वापि या तेषु बन्धुषु तेषाम् अव्यवहारार्थं शालीन् पार्थिव अवग्नन्द्या प्रकोष्ठस्ताश्चक्रुशङ्कास्वनं महत् साधज्जगुप्सितं मत्वां महती व्रीडिता ततः पपञ्चैकैशङ्कान् द्वौ उभयो अप्यभूद्घोषो ह्यवघ्नन्त्यास्म शङ्कयोः एकस्मान्नाभवद्ध्वनिः अन्वसि शमिमं तस्य उभदेशमरिन्दम लोकानरुचरन्नेतान् लोकतत्त्वविवित्सया वासे बहूनां कलहो भवेत् वार्ता द्वयोरपि कुमार इव कंकण मन एकत्रुज्या जितो जितासन वैराग्याप्यास नियम धृता यस्मोलब व्यधे तच्च नैः स नैर्मुञ्चति कर्म वृद्धेन रजस्तमश्च विधूय निर्वाणम् उपैत्य निन्दनं तथैवमात्मन्यवरुद्धचिद्ो न वेद किञ्चिद्बहिरन्तरं वा यदेषु कारो नृपतिं अप्रमत्तो गुहाशयः अलक्षमाण आचारे मुनिरेकोल्पभाषणः गृहारम्भोदि दुःखाय विपलश्चात्रुवात्मनः सर्प परकृतं वेश्मन् प्रविश्य सुखमेधते एको नारायणो देवः पूर्वसृष्टं स्वमायया संहृत्यकालकलया कल्पान्तयिधनीश्वरः एग एवाद्वितीयोऽभूत् आत्माधारोऽ किलाशयः कालेन आत्मानुभावेन साम्यं नीतासु शक्तिषु सद्वादिषु वादिपुरुषः प्रधानपुरुषेश्वरः परावराणां परमास्ते कैवल्यसङ्गितः केवलानुभवानन्दसन्दोहो निरुपाधिकः केवलात्मानुभावेन स्वभायां त्रिगुणात्मिकां संशोभयन् सृजत्याधौ तया सूत्रमरिन्दमां तामहुस्त्रिगुणव्यक्तिं सृजन्तीं विश्वतोमुखम् यस्मिन् प्रोतमिदं विश्वं येन संसरते पुमान् यतोर्न नाभिर्हृदयात् ऊर्णां सन्तत्यवक्त्रतः तया विहृत्य भूयस्थं ग्रसत्येवं महेश्वरः यत्र यत्र मनो धारये च दियां स्नेहाद्वेषाद्भयात् याति तत्तत्सरूपतां कीटः पेशकृतं ध्यायन् कुभ्यां राजन् पूर्वरूपम् असन्त्यजन् एवं गुरुभ्यये देभ्य येषा मे शिक्षितामतिः स्वात्मोपशिक्षितां बुद्धिं शृणुमेव ततः देहो गुरुर्मम विरक्ति विवेकहेतोर् पिभ्रत् स्म सत्त्वनिधनम् सततार्त्युदर्कम् तत्त्वान्येन विमृशामि यथा तथापि आराग्यमित्यवसितो विचरामि असङ्गः जायात्मजार्त पशुभृत्य स्वान्ते शकृश्रमवरुद्धधन स देह सृष्ट्वास्य बीजम् अवसीतति वृक्षधर्मा जि कथोमुपकर्षति कर्हि तर्ष सिन्नोन्यतस्त्वक् उदरं श्रवणं कृतञ्चेत् राणोऽन्यतश्च बलदृक्व च सृष्ट्वा पुराणि विविधान्यरीशृपशन् कगदं समत्स्यान् तैस्तैयतुष्टकृतयः पुरुषं विधाय ब्रह्मावलोकधिशनं धमापदेव सुधर्लभमितं बहुसम्भवान् ते मानुष्यम् अर्तदम् अनित्यम् मा अपीकीरः तूर्णं यतेत न पदेनुमृत्यु यावन्निःश्रेयसाय विषयः खलु एवं वैराग्यो विज्ञानो लोक आत्मनि विचरामि महीमेतां मुक्तसङ्घो नहङ्कृतिः न ह्ये कस्माद्गुरोर्ज्ञानं सुस्थिरं स्यात् सुपुष्कलं ब्रह्मैतदद्वितीयं वै गीयते बहुदर्शिभिः श्रीभगवानुवाच इत्युक्त्वा सयतुं प्रथम् आमन्त्रयगभीरदीहे वन्दितोऽप्यर्थितो राज्ञा ययौ प्रीतो यथागतम् अवधूतव च श्रुत्वा पूर्वेषां समचित्तो भभूवः इति श्रीमद्भागवते मखपुराणे एकादशस्कन्ते नवमोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविंदा गोविन्द सद्गुरुनाथमगराज किं जय